हरि ओम् श्री सीता रामचन्द्राभ्य नमः अथ श्रीमद् वाल्मीकि रामायणे युद्धकाण्डे चन्द्रविंच सर्गः श्रीरामेण लक्ष्मणम् प्रति लङ्काशोभाम् वर्णयित्वा सेनाव्यूह्य स्थापयितुम् आदेशः श्रीरामाज्ञ मुक्तेन शुकेन अपगम्य तदग्रे श्री रामसैन्यशक्ते प्राबलस्य वर्णनम् रावणेन स्वबलस्य वैकत्थनञ्च सावीर वीर समिति राज्ञा वीरराज व्यवस्थिता शशीना शुभ पौर्णमासी पौर्णमासैव प्रचचाल च वेगेन त्रस्ता चैव वसुन्धरा पीड्यमाना बलोकेन तेन सागरवर्चसा तथा शुश्रूराकृष्टम् लङ्कायाम् कान् नौकसः धीरी मृदङ्गसङ्घुष्टम् तुमुलम् लो महर्षणम् बभूवस्तेन घोषेण संवृष्टा हरि उत्थपः अमृष्यमाणा तद्घोषम् विने दुर्घोषवत्तरम् राक्षसा तत्प्रवङ्गानाम् शुश्रूस्तेऽपि गर्जितम् नर्दतामिव दृप्तानाम् मेघानाम् दृष्ट्वादाश्रथि लङ्गाम् चित्र ध्वज पतागिनीम् जगाम मनसा सीताम् दूयमानेन चेतसा अत्र सावाक्षी मृगसावक्षी रावणेनोपरुध्यते अभिभूता गृहेणेव लोहिताङ्गेन रोहिणी दीर्घम् उष्णम् च निःश्वस्य समुद्वीक्ष्य च लक्ष्मणम् वाच वचनं वीर तत्काल हितमात्मनः अलिखन्ती विवाकाशम् उत्थितां पश्य लक्ष्मणः मनसेव कुसाम् लङ्काम् नगाग्रे विश्वकर्मणा विमानै बहुभिः लङ्का सङ्कीर्णा रचिता पुरा विष्णुपदम् विवाकाशम् छादितं पाण्डुभिघनैः पुष्पितैषोभिता लङ्गा वने चित्र रथोपमये नानापदकसङ्घुष्ट फलपुष्पोपगैषु भैः पश्य मत्तविहङ्गानि प्रलीना भ्रमराणि च कोकिलाय कुलखण्डानि दोधवीति शिवो निलः इति दाशरथी रामो लक्ष्मणम् समभाषत बलं च तत्र विभजन् शास्त्रदृष्टेन कर्मणा शशास कपि सेनाम् ताम् बलादाय वीर्यवान् अङ्गदसहली नीलेन तिष्ठे दुरसि दुर्जयः तिष्ठे द्वानरवाहिन्या वानरोः समावृतः आश्रितो दक्षिणं पार्श्वम् ऋषभो नाम गन्धः अस्ति वदुधर्श तरस्वी गन्धमादनः तिष्ठेद् वानरवाहिन्या सव्यम् पार्श्वम् अधिष्ठितः मूर्नि स्थास्याम्यहम् यत्तौ लक्ष्मणेन समन्वितः जाममा च सुषेण च वेगदर्शी च वानरः वृक्षमुख्या महात्मानः कुक्षिम् रक्षन्तु ते जगनम् कपि कपिराजो कपिराजोऽभिरक्षतु पश्चार्धम् इव लोकस्य प्रचेता तेजसा वृतः सुविभक्तः महा महाव्यूहा महावानरक्षिता अनेकी नी सा विभौ यथा जौ साभ्रम्प्लवा प्रगृह्य गिरिशृङ्गाणि मातश्च महीरुहान् आसे दुर्वानरालङ्काम् मेमर्द ईशवोरणे शिखरे विकिरामयिणाम् लङ्कामुष्टिभिरेव वा इति धिरे सर्वे मनांसि हरिपुङ्गवः ततो रामो महासेजा सुग्रीवम् इदम् अब्रवीत् सुविभक्तानि सैन्यानि शुक एष विमुच्यताम् रामस्य तु वच श्रुत्वा वानरेन्द्रो महाबलः मोचयामा सुतम् शुकम् रामस्य शासनात् मोचितो रामवाक्येन वानरैश्च निपीडितः शुकः परम संस्तो रक्षो उपागमत् रावणः प्रसन्नेव शुकम् वाक्यम् उवाचः किम् इमौते सितो पक्षो लूनपक्षश्च दृश्यसे कच्चिनाने कचिच्चित्तानाम् तेषां त्वं वचमागतः ततश्च भयसंविघ्न तेन राज्ञाभिचोदितः वचनं प्रत्युवाचेदम् रक्षसा दीपम् उत्तमम् सागरस्य उत्तरे तीरे अब्रुवन्ते वचनम् तथा यथा सन्देशमक्लिष्टम् सान्त्रयन् श्लक्षणया गिरा क्रुद्धैतैः मुत्प्लुत्य दृष्टमात्र प्लवङ्गमयि गृहीतोऽस्म्यापि चारब्धो हन्तुम् लोक्तुम् च मुष्टिभिः न ते सम्भाषितुम् शक्या सम्प्रश्नोत्र न विद्यते प्रकृत्या कोपनास्ति क्षणः स विराधस्य, कबंधस्य, से खर से सुग्रीव सहित सीताया पद्मागत कृत्वा सागरे सेतु तीर्थ लवणो दधि एवं रक्षा से निर्धय धनी वानर वृक्ष वनरसंगाका सहस्रश गिरिमेघ निकाशानाम् छादयन्तीव सुन्दराम् राक्षसानाम् बलौघस्य वानरेन्द्र बलस्य च नैतयोर्विद्यते सन्धि देवदानवयोरिव पुरा प्राकारमायान्ति क्षिप्रमेकतरम् कुरु सीताम् चास्मै प्रयच्छासु युद्धम् वापि प्रदीयताम् शुकस्य वचनम् श्रुत्वा रावणो वाक्यम् अब्रवीत् रोषसंयुक्तरञ्जनयनो निर्दहन् निव चक्षुष यदि माम् प्रतिुद्धेरन् देवगन्धर्व दानवः नैव सीताम् प्रदास्यामि सर्वलोकभयादपि कदा समभिधावन्ति मामकाराघवंशरः वस पुष्पीमत्ता भ्रमर इव पादप कदा शोणित दिग्धांग दीतका मुक विच्युत शरयादपय्या उल्का भीव क्जनम तच्चा बलमे बल्न न महतावृत ज्योतिषाव प्रभा मुद्य सागरस्येव मे भेगो मारुतस्यैव मे बलम् न च दाश्चरथिर्वेद तेन मां योद्धुमिच्छति न मे पुरा वीर्यम् मम मम चापमयी वीणाम् शरकोणैः प्रवादिताम् जयशब्दम् मथलाम् घोराम् आतगीत महासनाम् नारा च तलसन्नादाम् नदी माहित वाहिनीम् अवगाह्य महारङ्गम् वादिष्यामहं रणे न वासवेनापि सहस्र युद्धेऽस्मि शक्यो वरुणेन वा स्वयम् यमेन वा धर्षयितुं च राज्ञिन महाहवे वै श्रवणे श्रवणेन वा पुन इत्याख्ये श्रीमद् वाल्मीकि आदिकाव्य युद्धकण्डे चतुर्वीञ्च सर्गः श्रीसीतारामचन्द्रार्पणमस्तु